श्रीशरभेश्वराष्टकस्तोत्रम् ज्वलकुटिलकेशं सूर्यचन्द्राग्निनेत्रम् निशितकरणकाग्रस्यूत सिंहास्य देहम् शरभवध भावयेत्पक्षिराजम् देवादिदेवाय जगन्मयाय शिवाय नासिकिभाननाय शर्वाय भीमाय चराधिपाय नमोऽस्तु शरभेश्वराय हराय भर्गाय हरिप्रियाय भवाय शांताय परात्पराय य नमोऽस्तु तुभ्यं शरभेश्वराय शीतां सुचूडाय दिगम्बराय सृष्टिस्थितिध्वंसनकारणाय झटाकलापाय जितेन्द्रियाय नमोऽस्तु तुभ्यं शरभेश्वराय श्रीशालकंठाय श्रीशालकण्ठाय हवान्तकाय कपालशूलाङ्गकराम्बुजाय भुजङ्गभूषाय पुरान्तकाय नमोऽस्तु तुभ्यं शरभेश्वराय शमाधिषड्गाय यमान्तगाय यमादियोगाष्टकसिद्धिदाय उमादिनाथाय पुरान्तकाय नमोऽस्तु तुभ्यं शरभेश्वराय कालाय देवावृतचन्दनाय कल्याणकौतूहलकारणाय स्थूलाय सूक्ष्माय सुरूपकाय नमोऽस्तु तुभ्यं शरभेश्वराय गणादिपाष्टकवर्जिताय नृसिंहदर्पाग्निविनाशकाय गुणाधिहीनाय गुणाधराय नमोऽस्तु तुभ्यं तु शरभेश्वराय पञ्चाननाय अखिलभास्कराय पञ्चाक्षरेशाय जगद्धिताय नमोऽस्तु तुभ्यम् शरभेश्वराय एतदस्त्रम् महामन्त्रम् जपेद्यत्नात् सदाम्बिके शरभास्त्रमिदम् प्रोक्तं अमोघम् जयवर्धनम् तत्प्रभावम् दृशाद्द्रष्टुम् मरासुराः नमस्ते कालकालाय नमस्ते रुद्रमन्यवे नमः शिवाय रुद्राय शंकराय शिवायते ते उग्रोऽसि सर्वभूतानाम् निजन्तासि शिवोऽसिनः सन्तप्ता स्मो देवा हरिणा अमित सर्वलोकहितानीतम् तत्त्वम् अंहस्तुमर्हसि